नारदपुराणम् पूर्वार्थम् अध्यायम् तु ऋषय ऊचुः कथं सनत्कुमारस्तु नारदाय महात्मने प्रोक्तवान् सकलान् धर्मान् कथं तौ मिलितावोद्भौ कस्मिन् स्थाने स्थितौ सूद तावोभौ ब्रह्मवादिनौ हरिगीतसमुद्गाने चक्रदुस्तद्वदस्वनः सूत उवाच सनकाद्या महात्मानो ब्रह्मणो मानसा सुदाः निर्ममा निरहङ्कार सर्वे दे तेषाम् नामानि वक्ष्यामि सनकश्च सनन्तनः सनत्कुमारश्च विभुः सनातन इति स्मृतः विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः सहस्रसूर्यसङ्गाश्च सत्यसन्धा मुमुक्षवः ेकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् इष्ठाम् मार्गेध ददृश्युगङ्गाम् विष्णुपदीं द्विजाः ताम् निरीक्ष्य समुद्युक्ता स्नातुं सीता जले भवन् एतस्मिन्नन्तरे तत्र नारदो मुनिः आजगामद्विजश्रेष्ठा दृष्ट्वा भ्रातॄन्स्वकाग्रजान् तान् दृष्ट्वा स्नादुमुद्युक्तान् नमस्कृत्य कृदाञ्जलि सप्रेम गृहन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः वासुदेव जनार्दन यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते पद्माक्षकमलाकान्त क्षीरोदशायिन् देवेश दामोदरनमोऽस्तु दे श्रीरामविष्णो नरसिंहवामनप्रद्युम्नसङ्कर्षणवासुदेव अजानिरुद्धमलरुङ्मुरारे त्वम् पाहिनः सर्वभयादजस्रम् इत्युच्चरन् हरेर्नाम नत्वा तान् स्वाग्रजान्मुनीन् उपासीनश्च तैः सार्धं स स्नौ प्रीतिसमन्वितः तेषां चापितुसीताया जले लोकमलापहे स्नात्वा सन्तर्प्य देवर्षि विगदकल्मषाः उत्तीर्य सन्ध्योपास्त्यादि कृत्वाचारं प्रचक्रु द्विजाः कथां प्रचक्रुर्विविधाः कृत कृतक्रियेषु मुनिषु गंगातीरे मनोरमे चकार चकारनारदः प्रश्नं नानाख्यानकथान्तरे नारद उवाच सर्वज्ञास्थमुनिश्रेष्ठाः भगवद्भक्तितत्पराः यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः लोकोद्धारपरान्युष्मान् दीनेषु कृतसौहृदान् पृच्छे तदो भगवल्लक्षणम् बुधाः येनेदमखिलम् जातम् जगस्तावरजङ्गमम् गङ्गापादोदगम् सकधं स कथम् ज्ञायते हरिः कथम् च नृणाम् ज्ञानस्य लक्षणम् ब्रूद तपसश्चापि मानदाः न दधिदेः पूजनं वापि येन विष्णुप्रसीदति एवमादीनि ये गुह्यानि हरितुष्टिकराणि च अनुगृह्य च मां नाधास्तत्त्वतो वक्तुमर्हथ शौनक उवाच नमः पराय देवाय परस्मात् परमाय च परावरनिवासाय सगुणायागुणाय च अमायात्मसञ्ज्ञाय मायिने विश्वरूपिणे योगीश्वराय योगाय योगगम्याय विष्णवे ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ज्ञानेश्वराय ज्ञेयायज्ञात्रे विज्ञानसम्पदे ध्यानायद्ध्यानगम्या यद्ध्यादृपापहराय च ध्यानेश्वराय सुधिये ध्येयद्ध्यादृस्वरूपिणे अदि यचन्द्राग्निविधादृदेवाः सिद्धाश्च यक्षासुरनागसङ्खाः यच्छक्रियुक्तास्तमजं पुराणम् सत्यं स्तुतीशम् सतदम् नदोऽस्मि यो ब्रह्मरूपी जगताम् विधाता स एव पादाद्विजविष्णुरूपी कल्पान्धरुद्राख्यतनुः स देवश्चेदेङ्घ्रि पानस्तमजं भजामि यन्नामसङ्कीर्तनदो गजेन्द्रो ग्राहोऽग्रबन्धान्मुचे स देवः विराजमानस्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् सङ्कल्पपूर्वात्मकदेहेदुस्तमेव नित्यं शरणं प्रपद्ये यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधारगोत्रम् देवम् च भूभारविनोदशीलम् तम् वासुदेवं सतदम् नतोऽस्मि लेभेव धीर्यो गृह्निसृंहरूपी यो दैत्यवक्षकठिनं शिलावद विदार्य संरक्षितवान् स्वभक्तं प्रह्लादमीशं तमजं नमामि व्योमादिभिर्भूषितमात्मसञ्ज्ञं निरञ्जनं नित्यममेयतत्त्वम् जगद्विधाधारमकर्कमकं च परं पुराणं पुरुषं नदोऽस्मि ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः स्वमूर्तिभेदैष्ठित एक ईशस्तमादिमात्मानमहं भजामि यदो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः यस्थितो विश्वरूपेण सङ्गीवात्र असङ्गी परिपूर्णश्च तमस्मि शरणं गतः हृदि स्थितो पियो देवो मायया मोहिदात्मनां न ज्ञायते परःशुद्धस्तमस्मि शरणं गदः सर्वसङ्गनिवृत्तानां ध्यानयो गरदात्मनां सर्वप्रभाधिज्ञानात्मा तमस्मि शरणं गदः दधारमन्तरं पृष्टे निरोधे मृदमन्थने देवतानां हितार्थाय तं कूर्मं शरणं गदः दंष्ट्राङ्गुरेण यो नन्दः समुद्धृत्यार्नवाद्धराम् तस्थाविदं जगत्कृष्णं वाराहं तं नदोऽस्म्यहम् प्रह्लादं गोपयन् दैत्यं शिलादिकठिनो रसं विदार्यहतवान् यो हि तं नृसिंहं नतोऽस्म्यहं लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामदित्ययः आ ब्रह्मभुवनं प्रादात् सुरेभ्यस्तम् न दोजितम् हरिहयस्यापराधेन ह्येकविंशतिसङ्ख्यया क्षत्रियान्वयभेत्ता यो जामदग्न्यं न दोस्मितम् आविर्भूतश्चतुर्थाय कपिभिः परिवारितः अथवान् राक्षसानेकं रामचन्द्रम् स्म्यहम् मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च संजहारकुलं स्वं यस्तं श्रीकृष्णमहं भजे भूम्यादिलोकत्रितयं सन्तृप्तात्मानमात्मनि पश्यन्ति निर्मलं शुद्धम् तमीशानं भजाम्यहं युगान्धे पाभिनो शुद्धान् भित्त्वा तीक्ष्णसुधारया स्थापयामास यो धर्मं कृदादौतं न माम्यहम् एवमादिन्यनेकानि यस्य रूपाणि पाण्डवाः न शक्यं ते न कोड्यब्दैरपि तं भजे महिमानं तु यन्नाम् नः परं गन्तुं मुनीश्वराः देवाः सुराश्च मनवक्कथं तं क्षुल्लको भजे यन्नामश्रवणेनापि महापादकिनो नराः पवित्रतां प्रपद्यन्ते तं कथं स्तौमि शाल्पधीः यथा कथञ्चिद्यन्नाम्नि कीर्तिदेवा श्रुतेऽपि वा पापिनस्तु विशुद्धा स्युशुद्धा मोक्षमवाप्नुयुः आत्मन्यात्मानमाधाय योगिनो गदकल्मशाः पश्यन्ति यं तमस्मि शरणं गतः संख्या सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिं तमादिदेवमजरं ज्ञानरूपं भजाम्यहं सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरं सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् यद्भूतं यच्च वैभाव्यं स्थावरं जंगमं जङ्गमं जगदशाङ्गुलं योग्य तिष्ठतमीशमजरं भजे अणोरणीयां समजं महतश्च महत्तरं गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ध्यागस्मृद्धः पूजितो वा श्रुतः प्रणमितोऽपि वा स्वपदं यो ददाधीशस्तं वन्दे पुरुषोत्तमम् इति स्तु वन्दं परमं परेश्यं सनन्दनाद्याः प्रमोदं प्रजग्मुः यम् इदं प्रादरुद्धाय पठेद्वै पौरुषंस्तवं सर्वपापविशुद्धात्मा विष्णुलोकं स इदिश्री इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनः कुमार नारद संवादे नारदकृद विष्णुस्तुतिर्नामद्वितीयोऽध्यायः ओम्